केनोपनिषत् सामवेदीय केनोपनिषत् शान्तिपाठः ओ आप्यायन्दुममाङ्गानि वाक् प्राणश्चक्षुश्रोत्रमधो बलमिन्द्रियाणि च सर्वाणि सर्वम् ब्रह्म उपनिषदं माहं ब्रह्म निराकुर्यां मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरतेय उपनिषत्सु धर्मास्थे मयि सन्तु ते मयि सन्तु ॐ शान्धिः शान्धिः शान्तिः अधः प्रथमः कण्ठः ॐ केनेषितं पदधिप्रेषितं मनःकेन केनेषितां वाचमि मां शङ्क उ देवो युनक्री श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचोः वाचं स उ प्राणस्य प्राणश्चक्षुषश्चक्षुरधिमुच्य धीराप्रेत्यास्माल्लोकादमृदा भवन्ति न तत्र चक्षुर्गच्छदिन वा गच्छदिनो मनो न विद्मो न विजानीमो यथैतदनुशिष्यदन्यदेव तद्विदिता दधो अविदिता दधि यदि शुश्रुमः पूर्वेशाय्येनस्तद्व्याच चक्षिरे यद्वाचानभ्युदि दै येन वागभ्युद्यते तदेव ब्रह्मत्वं विद्धिनेदै यदिदमुपासते यन्मनसा न मनुते येनाहुर्मनो मदं तदेवब्रह्मत्वं विद्धिनेदै यदिदमुपासदे यच्चक्षुषान्न ये पश्यति येन चक्षुंषि पश्यति तदेवब्रह्मत्वं विद्धिनेदै यदिदमुपासते यत् श्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्मत्वं विद्धिनेदै यदिदमुपासते यत्प्राणेन नः प्राणिति येन प्राणः प्रणीयते तदेव ब्रह्मत्वं विद्धिनेदैयदिदमुपासते अधद्विधिह्यः खण्डः यदि मन्यसे सुवेदेदिभ्रमेवापि नो नन्त्वं वेद्धब्रह्मणो रूपै यदस्य देवेश्वधनुमीमांस्यमेव ते मन्ये विदिदं नाहं मन्ये सुवेदे दि नो न वेदे दि वेद च यो नस्तद्वेद तद्वेद नो न वेदे यस्या मदन्तस्य मदं मदै यस्य न वेदसः अविज्ञानं विजानतां विज्ञादमविजानं प्रतिबोधविदिदं मदममृतत्वं हि विन्दते आत्मना विन्दते वीर्यं विद्यया विन्दते मृदम् इह चेदवेदी दधसत्यमस्ति न चेदिह वेदिन्महदि विनष्टिः भूदेशु भूतेषु विचित्य धीरा प्रेत्यास्माल्लोकादमृता भवन्ति अध तृतीयखण्डः ब्रह्म देवेभ्यो विजिज्ञे तस्य स ब्रह्मणो विजयेदेवा अमहीयन्द त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमे वायं महिमेति तद्वैषां विजज्ञौ तेभ्योः प्रादुर्बभूव तन्नव्यजानद किमिदयक्षमिदि यक्षमिति तेऽग्निमब्रुवन् जादवेद एद्विजानीहि किमेतद्यक्षमिति तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्यादवेदा वा अहमस्मीति तस्मिं स्तोयि किं पृथिव्यामिति तस्मै तृणन्निदधा वेददहेदि तदुपप्रयाय सर्वजवे न तन्न शशाकदग्धुं स तदेव निववृते यदे तद्यक्षमिति अध वायुमब्रुवन्वायवेदद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तमभ्यवदत्कोसिदि। वायुर्वा अहमस्मीत्यब्रवीन्मादरिष्वा वा अहमस्मीति तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीयदिदं पृथिव्यामिति तस्मै तृणन्निदधावेतदा दस्वेति तदुपप्रेयाय सर्वजवेन तन्न तद एव निववृदे नैतदशकं विज्ञातुं यदेतद्यक्षमिति अधेन्द्रमब्रुवन्मकवन्ने तद्विजानीहि किमे तद्यक्षमिति तदे तदेति तदभ्यद्रवतस्मातिरोदथे स तस्मिन्नेवाकाश्ये स्त्रियमाजगामबहुशोभमानां मुमां हैमवती तां होवाच किमेतद्यक्षमिति अथ चतुर्धखण्डः सा वा ब्रह्मेदिहो वाच ब्रह्मणो वा ये दद्विजये महीयद्ध्वमिति तदोहैवविदाञ्चकारब्रह्मेति तस्माद्वा ये ते दे देवा अदितरामिवान्यान्दवान्यदग्निर्वायुरिन्द्रस्त ह्येने दिष्टं पस्पर्शुस्तेह्येन प्रथमो विदाञ्चकारब्रह्मेति तस्माद्वा इन्द्रोतिधरामि वान्यान् देवान् सह्येनष्टं पस्पर्षसह्येन प्रथमो विताञ्चकार ब्रह्मेति तस्यैष आदेशो यदेतद्विद्युतो विुद्युतदा इतिमिषदा इत्यधिदैवतम् अधात्मै्यदेतद्गच्छ मनो न चैददुपस्मरत्यभीक्ष्णं सङ्कल्पः उपनिषदम्भो ब्रूहित्युक्ता त वावत उपनिषदमब्रूमेधि तस्यैतपोधमः कर्मधि प्रतिष्ठा वेदासर्वाङ्गानि सत्यमायतनम् यो वा येदामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्ये ये प्रतिष्ठति प्रतितिष्ठति ॐ शान्ति शन्धि शन्तिः